मुद्गलपुराणं खण्डं सिक्स् विकटचरितम् अध्यायं सिक्स् भृष्युण्डिपञ्चदेवसमागमं श्रीगणेशाय नमः शक्तय ऊजुः मयूरनामगं क्षेत्रं भूस्वानन्दमयं कथं बभूव तत्समाचक्ष्वपरं कौतूहलं त्विदं पुरा कथम् शिवाद्यैश्च सिद्धिप्राप्ता जगन्मयी वद तत्र कथं तेषां भ्रुशुण्डी चाभवद्गुरुः कीदृश्यं क्षेत्रमुख्यं तु केन तत्र गजाननः स्थापितः पूर्वकाले वै सिद्धिमवाप्नुयुः वदशक्रे मयूरस्य सर्वसिद्धिदं क्षेत्रस्य स्वल्पपालेन लभते स्वेप्सिदं नरः मुद्गल उवाच एवम् पृष्टा महामायाशक्तिभिश्च प्रजापदे भक्तियुक्ताभिरत्यन्तमादरात्ता उवाच सा तत्तेऽहं शृणुवक्ष्यामि सर्वसिद्धिप्रदायकम् श्रवणेन न सन्देहो ब्रह्म भूतपदप्रदम् आदिशक्तिरुवाच अत्राहम् कथयिष्यामीतिहासम् परमाद्भुतम् भृशुण्ठिनः शिवादीनाम् संवादात्मकमुत्तमम् कदाचित् प्रलये वृत् ते नष्टे स्थावरजङ्गमे ब्रह्म विष्णु विष्णुशिवाद्याश्च लयं ययुःस्वभावदः तदोतिलयवेगेन पंचभूदानि शक्तयः लयं प्राप्तानि सर्वत्र शून्यरूपम् वभूवः तदो जागृन्मयं ब्रह्मस्थूलभूतं लयं गतम् तथा सूक्ष्मं महादेव्यस्वप्नं प्रलयवे गदः समभावमयं ब्रह्म सौषुप्तं तल्लयं गतं तथ प्रकृतिरूपा पुरुषे तन्मयी ह्यभूत पुरुषो ब्रह्मणि भावं संस्थितो भवत ब्रह्म ब्रह्मणि संस्थं वै बभूव स्वात्मगम् परं एवं महालये प्राप्ते क्षेत्रं स्वानन्दवाचकं स्वसंवेद्यस्वरूपेण स्थितं ब्रह्मपदप्रदं तदा विघ्नेश्वरसाक्षाद्योगनिद्रापरायणः क्षेत्रे मयूरे सुष्वाप तदाकारधरप्रभुः तदो बहौ गदेकाले निद्राहीनो बभूवः निश्वासदो भवन्नस्य सोङ्कारा निगमाः पुरा तैस्तुतो ससर्ज सकलम् पुनः प्रकृतिम् पुरुषाद्यं च नानातत्त्वस्वरूपकं तत्त्वयस्त्रिगुणकं सृष्ठं स्थूलसूक्ष्मसमात्मकं त्रिविधं तु विराड्रूपं नानाभेदप्रसूतकं ततस्त्रिविधरूपं च नानाभिन्नं बभूवः चराचरात्मकं ब्रह्म पञ्चभूतमयं बभौ भिन्ना पंचभूतावस्ता संयुता नि बूवुरादेह सृष्टि वहाम वह नाभे समुभवस्त ब्रह्मोकतामह मुखाषुस्वय पद गणेश चुर्भुज ने वत्पन्नो वामाङ्गात्तस्य चाभवम् अहम्भानुर्दक्षिणाङ्गात् पञ्चदेवाः पुरातनाः अज्ञानेन समायोक्ता न विधुस्वपरं तदा देवाज्ञानप्रसिद्ध्यर्थं तपश्चेरुर्महाद्भुतं दिव्यवर्षसहस्रेण प्रसन्नो गणनायकः हृदिस्थं दर्शयामास बीजमेकाक्षरं स्वकं मन्त्रं प्राप्य महेशानाजेपुर्विघ्नेशमाभजन् गदे वर्षशदे पूर्णे प्रसन्नोऽभूद्गजाननः आदौ शङ्करहृद्देश्ये दर्शयामासरूपकम् नरनागमयं पूर्णं च दुर्भुजादिचिह्निदं तं दृष्ट्वा विस्मितसोऽपि चित्ते विचारमाकरोद नरकुञ्चररूपोऽयं चित्ते मे कः प्रतिष्ठति यावत् तं प्रष्टुमारेभे तावदन्तर्हितं वभुः तदसोऽपि गणेशस्य पुनर्ध्यानयुदो भवद न ददर्शमहद्रूपं तदो विह्वलचित्तोऽसौ जगाम विष्णुसन्निधौ तदासोपि सोऽपि विसृज्यैव ध्यानं समुद्धितो शिवस्तस्मै स्ववृत्तान्तं कथयामास हृद्गदम् शिवाय स जगादैवं स्वध्यानस्थम् जनार्दनः एवं क्रमेण पञ्जैरे दे देवेशा मिलिदा जगुः परस्परं विचार्यते ध्यानं विस्मितमानसाः ऊजुक्वयं न रश्चैव भवध्याने समागतः तदस्ते तुष्टुवुर्देवं यस्मै कस्मै नमो नमः सर्वेषां मूलरूपाय प्रसीद करुणानिधे तद आकाशजाम् वाणीं शुशुभुस्ते महौजसः ब्रह्मविष्णुमहेशान शक्ति सूर्यात् सुखप्रदाम् आकाशवाघुवाच गणेशोकं महादेवाश्चित्तवृत्तिप्रचालकः यस्य तप्तं तपोघोरं स एवाहं न संशयः प्रसन्नेन मया दौवस्तपसा हृदि दर्शितम् बीजमेकाक्षरं मे वैसिद्धा यूयं जपात्तदः साक्षान्मे दर्शने देवानाधिकारोऽस्ति निश्चितं योगहीनप्रभावत्वात्ततश्चान्दर्हितो भवम् महाभक्तं पृच्छध्वं सर्वमञ्जसा गत्वा नत्वा स वै साक्षात् ज्ञानदा भविष्यति तत् ज्ञात्वा देवदेवा मां भविष्यध समर्थकाः सन्द्रष्टुं नात्र सन्देहस्तदसिद्धिमवाप्स्यथ एवमुक्त्वा गणेशानस्वस्थ सौन्दर्हितो भवत शिवादयः प्रणम्यैव युयुस्थं मुनिपुङ्गवम् अमलाश्रमसंस्थं तं ददृशुर्विष्णुमुख्यकाः भ्रुशुण्डिनं प्रणम्यैदे संस्थिता हर्षसंयुताः ऊजुप्राञ्चलय सर्वे तं मुनिं शुण्ढयायुतम् एकमेव स्थितं पूर्णयोगानन्दमयं परं देवेशाचुः धन्यं जन्मतपो विद्याज्ञानं ते पाददर्शनाद धन्योऽपि योगिनां मध्य आदिमध्यान्तवर्जितः सोऽपि तान् पूजयामास ज्ञात्वा देवदमान्मुनिः कृत्वातिथ्यं जगादैवं भृशुण्डी परमार्थविद भृशुण्ड्युवाच जगदां मूलरूपाश्च भवन्तो जगदीश्वराः समागता आश्रमे भाग्यगौरवाद किगद्यंब्रूद कम्यह आदिध्याज्ञा विश्व परक्रय ऊचु महालिए भ्रुशुंडी चय विवर्जि वदशक्रे मुस्त चरत परमाभुत मुद्गल उवाच महालक्ष्मीमुखीनां तु देवीनां प्रश्नमुत्तमम् श्रुत्वा ता जगदम्बा सा कथयामा सहर्षिता पुरा भृश्युण्डिचरितं मया रम्यम् प्रकाशितम् श्रुत्वा संशयहीनास्ताम् पप्रच्युर्विनयान्विताः ॐ तत्सदि श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते भृश्युण्डि पञ्चदेव समागमो नाम षष्ठोऽध्यायः ॐ